श्रीमद्भागवत् महापुराणम् एकादशस्कन्धसप्तमोऽध्यायः बुद्ध्यते स्वेन व्यक्तिस्थ इव तद्गतः लक्षते स्थूलमतिभीरात्मा चावस्थितोऽर्कवत् नातिस्नेहप्रसङ्गो वा कर्तव्य क्वापि केनचिन् कुर्वन्विन्देत कपोत इव दीनथे कपोत कश्चनारण्ये कृतनीडो वनस्पतौ कपोत्या भार्या सार्धम् उवास गतिचेत्समाह कपोतौ स्नेहगुळितहृदयो गृहं धर्मिणौ दृष्टिं दृष्ट्याङ्गमङ्गेन बुद्धिं बुद्ध्या वार्ता सय्यासनाटनस्थानवार्ताक्रीडासनादिकम् मिथिनी भूय विस्रब्धो चेरतुर्वनराजिषु यं यं वाञ्छति सा राजन्तर्पयन्त्यनुकम्पिता तं तं समनयत्कामम् कथेनाप्यजितेन्द्रियः कपोती प्रथमं गर्भं गृह्णति काल आगते अण्डानि शिशुवे निदेशपत्युः सन्निधौ सती तेषु काले विजायन्तं रचितावयवा हरेः शक्तिभिर्दुर्विभाभ्याभि कोमलाङ्गतनूरुहाः प्रजापुवसतो प्रीतौ दम्पतीपुत्रवत्सलौ त्रिण्वन्तौ कूजितं तासां निर्वितौ कुलभाषितैः तासां पतत्रयसुस्पर्शैः कूजितैर्मुग्धचेष्टितैः प्रत्योदगमैरन् दीनानां पितरौ मधमापतुः स्नेहानो बद्धहृदया वन्योऽन्यं विष्णुमाययां विमोहितो दीनधिसिन्धियौ शिशू न पुषतु प्रजाः एकदा जग्मतु स्तासाम् अन्नार्थं तौ कुटुम्बिनौ परितकानने तस्मिन्नर्थिनौ चेरतु स्थिरम् दृष्ट्वा तान् लुब्धककश्चिन्ददीक्षातो वनेचरः जगृहे जा जालमातत्य चरत स्वालयान्तिके कपोतश्च कपोति च प्रजापोषे सदो सुखौ गतौ पोषणमादाय स्वनीडमुपजग्मतुः कपोति स्वात्मजान् वीक्ष्य बालकान् जालसंवृतान् नभ्य धावां धावत क्रोशन्ति क्रोशतो भृशुदुःखिता साच कृष्णेह गुणिता दीनचित्ता जमायया स्वयं च बद्धतश्रि च बद्धान् पश्चत्यपस्मृतिः कपोतश्चात्मजान् बद्धान् आत्मनोऽप्यधिकान् प्रियान् भार्याम् चात्मसमां दीनो विललापाति दी दुःखितः अहो में पश्यतापायम् अल्पं पुण्यस्य दुर्मतेह अतिप्तस्य कृतार्थस्य गृहस्त्रैर्वर्गिको हतः अनुरूपानुकूला च यस्य मे पतिदेवता शून्ये गृहे मां सन्त्यज्य पुत्रैश्वर्याति सोऽहं शून्ये गृहे दीनो मृतदारो मृतव्रजः जिजीविषे किमर्थं वा विधिरो दुःखजीवितः तान् तथैवावृतासिग्भिर्न्मृत्युग्रस्तान् विचेष्टतः स्वयं च कृपणशिक्षो पश्यन्नप्यबुधोपतत् तं लब्ध्वा लुब्धक क्रूरकपोतं गृहमेधिनम् कपोतकान् कपोतिं च सिद्धार्थप्रयौ गृहम् एवं कुटुम्बशान्तात्मान् द्वन्द्वारामपतत्रिवत् पुष्णन् कुटुम्बं कृपणः शाणुबन्धो वशीदति य प्राप्य मानुषं लोकं मुक्तिर्द्वारमपावृतं गृहे सुखगवत्सक्ततमारूढस्थितं विदुः ते श्रीमद्भागुते महाप्राणे पारं हंस्यां सहितायाम् एकादश स्कन्धे